नारदपुराणम् पूर्वार्थम् अध्यायम् 101. अण्ड् वन् श्रीब्रह्मोवाच शृणुवत्स प्रवक्ष्यामि पुराणम् दशमम् तव ब्रह्मवैवर्तकम् नाम वेदमार्गानुदर्शकम् सावर्णिर्यत्र भगवान् साक्षाद्देवर्षये स्थितः नारदाय पुराणार्थम् प्राह सर्वमलौकिकम् धर्मधर्मार्थकाममोक्षाणां साधप्रीतिर्हरौ हरे तयोरभेदसिद्ध्यर्थं ब्रह्मैवर्थमुत्तमम् रथन्दरस्य कल्पस्य वृत्तान्तं यन्मयोधितं शतकोटिपुराणे तत् संक्षिप्य प्राहवेदविदव्यासश्चतुर्था संव्यस्य ब्रह्म वैर् ब्रह्म ब्रह्मवैवर्तसंनिधे अष्टादशसहस्रं तत्पुराणं परिकीर्तितं ब्रह्मप्रकृतिविघ्नेशकृष्णखण्डसमन्वितं तत्र सुतर्षिसंवादे पुराणोपक्रमस्ततः सृष्टिप्रकरणं त्वाद्यं ततो नारदवेधसोः विवाद सुमहान्यत्र द्वयो रासीत्पराभवः ज्ञान शिवलोकगति पश्चात्भशिवात्मने शिववाक्यन तरीचेर्मारध से तो गमनजरीव सवर्णे ज्ञानाथ सिद्धसे आश्रमे सुमहाश्चर्यकारिणी एतद्धि ब्रह्मखण्डं हि श्रुतं पापविनाशनं ततः सावर्णिसंवादो नारदस्य समीरितः कृष्णमाहात्म्यसंयुक्तो नानाख्यानकथोत्तरं प्रकृतेरंशभूतानां कदानां चापि वर्णितं माहात्म्यं पूजनाद्यं च विस्तरेण यथा स्थितं ये तत्प्रकृतिखण्डं हि श्रुतं धूति विधायकम् गणेशजन्मसम्प्रश्नसम्पुण्यकमहाव्रतं का पार्वत्या कार्तिकेयेन सह विघ्नेशसम्भवं चरितं कार्तवीर्यस्य जामदग्र्यस्य चाद्भुतं विवादसु महानासीत् जामदग्र्यगणेशयोः यदद्विघ्नेशखण्डं हि सर्वविघ्नविनाशनं श्रीकृष्णजन्म सम्प्रश्नो जन्माख्यानं तदोद्भुतं गोकुले गमनं गश्चात् पूदनादिवदद्भुधाः बाल्यकौमारजा लीला सहा क्रूरेण तत्पश्चान्मधुरागमनं हरेः कंसादीनां वधे वृत्ते कृष्णस्य द्विजसंस्कृतिः कास्यसान्दीपने पश्चाद्विद्योपादानमद्भुतं यवनस्य वध पश्चाद्वारकागमनं हरेः नरकादिवध तत्र कृष्णेन विहितोद्भुतः कृष्णखण्डमिदम् विप्र नृणाम् संसारखण्डनम् पठितम् च श्रुतम् ध्यातम् पूजितम् चाभिवन्दितम् इत्येतद् ब्रह्म वैवर्तपुराणम् चात्यलौकिकम् व्यासोक्तम् चादि सम्भूतम् पठन् शृण्वन् विमुच्यते विज्ञानाज्ञानशमनाधोरा संसारसागराद लिखित्वेदं च योद्धध्यन्माद्यां धेनुसमन्वितं ब्रह्मलोकमवाप्नोति समुक्तो ज्ञानबन्धनाद यश्चानुक्रमणी चापि पठिद्वा शृणुयादपि सोऽपि कृष्णप्रसादेन लभते वाञ्छितं फलं युधि बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने ब्रह्मवैवर्तपुराणानुक्रमणी निरूपणं नामैकोत्तरशततमोऽध्यायः ओम्